मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायम्, तर्टीवन् दत्तात्रेयसङ्गमम् श्रीगणेशाय नमः मुद्गल उवाच शृणुदक्षमहाश्चर्यं दैत्यस्य च विचेष्टितं ब्रह्माण्डाधिपतिर्जातो मत्सरकर्मणा स्वयम् सुन्दरप्रियपुत्रं च कैलासाधिपतिं ततः चक्रे वैकुण्ठनादं तं पुत्रं स्वं विजयप्रियं प्रह्लादं सत्यलोकेश्यं माहेन्द्रेशं विरोचनम् एवं चक्रे च राजेश स्वर्गाधीशान् च दैत्यभान् स्वयं भूमिं समागम्य नगरं निर्ममेतदः मत्सरा वासकं नाम तत्रै तत्रैवन्यवसन्मुदा त्रैलोक्यं वशगं सर्वं चकारस्वेन तेजसा शिवादयश्च देवेन्द्रा गृहे तस्य समास्थिताः तान् समानाय दैत्येषो हर्षयुक्देन चेदसा। उवाच मधुरं वाक्यं सामयुक्तं महासुरः शृणु शम्भो महाभाग देवेन्द्रैः सह देवप यत्रेच्छा गच्छ तत्र त्वं मदाज्ञां पालयन् सदा ेवमुक्त्वा स दैत्येन्द्रो मोचयामास शङ्करं देवैः सह महाभागो मत्सरो हर्षसंयुधः शिवोऽपि देवसङ्खाधयः पर्वतद्रोणीमाश्रितः चिन्ताविष्टो महादेवकालं पश्यांश्च संस्थितः यत्र तत्र गुहायां ते देवविष्णुपुरोगमाः संस्थिता भयभीदाश्च दिवसानदिचक्रमुः पृथिव्यां दैत्यराजेन तदो धर्मस्य खण्डनम् कृतं सर्वत्र तेनैव हाहाकारो भवन् महान् देवानां प्रतिमा यत्र तां भङ्वा चिक्षिपुर्जले दैत्यास्तदाज्ञया दक्ष धर्मलोपं प्रचक्रिरे मत्सरस्य दैते याः सर्वभावदः देशे देशे पुरे ग्रामे स्थापया गृहे गृहे च देवानां प्रतिमां संस्थिदां परां तां भङ्क्त्वा जलमध्येते चिक्षिपुश्च प्रजापते मत्सरप्रतिमां कृत्वा प्रतिगेहं दधुस्तदः देत्या सुदारुणा विश्वं त्रासया मासुरेव ब्राह्मणांश्च समानीय ताडयामा समत्सरः ममैव मन्त्रसूक्तेन यज्ञाधिक्रियतां द्विजाह मम नाम्ना च गायत्रीं युक्तां जपत मां चिरम् अग्नि अग्निहोत्रक कर्मकुं मन्मदम तथा अहम द्राह्मणादिजन से भजता मम पद चुर्लभं कि भविष्य धनधान्यागोगाुम दाया सन्देह मदधीनं जगत्सदा मम प्रीतिकरा दैत्या भोज्यैः प्रपूजिताः तेन सन्दर्पितो नूनं वाञ्छितं पूरयाम्यहम् एवमादिश सर्वत्र नानाधर्मनिकृन्तनम् कारयामासदुर्बुद्धिर्मत्सरो मत्सरान्वितः केजिदृषिगणा दक्ष वनं व्याघ्रादिसंयुधं जग्मुस्तत्र क्रिया सर्वाश्चक्रुर्धर्मपरायणाः देहरक्षणसक्ताश्च मुनयो भ्रंशमागताः सर्ववर्णपरिभ्रष्टा जनाजादाः प्रजापते यजनं या जनं तत्र स्वधर्मादिस्वभावजं कर्म सर्वं न जनास्तद्भयभाविताः न स्वाहा न आभवत पापस्य भयसम्स संजादा भयदाइनी तद देवणसर्वे उपोषण निपीडिता विचारम तत्र चक्रुस्ते मत्सरस्य विनाशने न नाशार्थं किञ्चिद्भयोद्विघ्ना नाशार्थं शेकुरोजसा एतस्मिन्नन्तरे तत्र दत्तात्रेयः समाययौ साक्षात् ब्रह्ममयो योगिन्यस्तस्वपरविभ्रमः मलिनो जडवल्लोके भ्रम दिस्म पिशाचव चेष्टे नग्नोंलवद्वन्वकारक उन्मत्वन्महा भे गणराज से भक्त परमशोभन तम् दृष्ट्वा देवसङ्खास्ते समुत्तस्तुः सुसादराः प्रणेमुः कार्यसिद्ध्यर्थम् पूजया मासुरञ्च सा पादसंवाहनम् तस्य चक्रु केचन भावदः फलादिना नैवेद्यमर्पया मासुरादराद पप्रत्युर्भुक्तवन्तं तं विनयेन समन्विताः शम्भुविष्णुमुखा सर्वे भयभीदा महामुनिं शिव उवाच स्वामिंस्त्वं द्वन्द्वहीनश्च नित्यमानन्दभाक्परः न्यष्टस्वपरभावश्च तथापि जनवत्सलः गणेशस्य वरो भक्तसाक्षाद्गणपतिस्वयं योगभावेन सम्पन्नो योगी योगविदां वरः तथापि दुःखितान् दृष्ट्वा मनस्ते कलिलं भवेत् उपाधिहीनभावेन दुःखनाशं करोशिवै वै अदो पीडिदा महाभागपीडिता मत्सरेण सर्वे चरामश्वापदा इव अत्रापि धर्मलोपेन पीडिदा वयमुत्कटम् उपोषण उपोषणपरास्वामिन्मरिष्यामो महामदे अत्र ते दर्शनं प्राप्तं पूर्वपुण्यबलेन नभोहो तेन दुःखविहीनाश्च भविष्यामो न संशयः अधो मत्सरदैत्यस्य नाशोपायम् वद प्रभो येन सर्वं जगत्क्लिष्टं तत्सुखं कुरु मानद एकस्य दोषयोगेन बहवः पीडिता अनुपाधितया योगी तं दोषं नाशयिष्यति शक्तश्चेत्स्वस्वभावेन सर्वेभ्यः सुखदायकः अतस्त्वं त्वं रक्षयोगीश जगत्कृष्णं विशेषतः मुद्गल उवाच शिवस्य वचनं श्रुत्वा देवान् दीनतमान् परान् दृष्ट्वा सकरुणायुक्तः प्रत्युवाच च हर्षयन् दत्तात्रेय उवाच शृणु शम्भो जगन्नाथत्वं साक्षादीश्वरशिवः तवा दीनमिदं सर्वं त्वां ब्रूवे किं महामते तथापि वच्मि देवेश्यत्वदाज्ञा सम्प्रचोदितः येन त्वं देवसंयुक्त सुखं विन्दसि शाश्वतं त्वदीये हृदये शम्भो मत्सरः संस्थितोऽधुना ईश्वरोऽहमिदं सर्वं मदधीनं प्रवर्तते न मत्समस्त्रिभुवने यदि यन्मत्सरः जहितं योगमार्गेण हृदयस्थं महासुरं श्रेष्ठं दृष्ट्वा महेर्ष्यादे जायते या महामदे जहितां तपसा शम्भो गणेशस्य प्रसेवया एकाक्षरविधानेन मया सौ सेवितः तेनाहम् च गणाधीशो न भिन्नौ मयि अतस्त्वं योगमार्गेण गणेशम् सर्वसिद्धिदं एकाक्षरविधानेन तमाराधयत्नदः हृदि स्थम् मत्सरम् हत्वा पश्चात् जहिदानवम् योगेन त्वं समर्थो हि भविताश्विन संशयः एवमुक्त्वा महादेवं गतोः सौ मुनिषत्तमः यदृच्छयाचरन् सन् वै गणनायकम् ॐ तत्सदि श्रीमदान्त्ये पुराणोप निषदि श्रीमन्म उद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दत्तात्रे य सङ्गमोन्नामैकत्रिंशोऽध्यायः ओ